ह्यस्यास्मादिन्द्रौत्तरःख्ये वृते यस्येतमभ्यम् हविप्रियम् देवे ढुगच्छिविश्वस्मादिन्द्रौत्तरः ऋडागपादिरेव दिगुपुत्रा दु सुृहे म् उदाहमद्भाकुक्षी प्रीणन्ति मे विश्वस्मादिन्द्रवुत्तरः ऋगो न दिग्मृङ्गोन्दर्योधे मन्दस्त इन्द्रसं हृदे इन्द्रे सुमोदे भाभिर्विश्वस्मादिन्द्रपुत्तरः अजे जेयस्य रम्भतेन्दरासख्याकप्रेते सेधिेयस्य रोमसन्निषे दुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः अजे जेयस्य रोम सन्निषे दुषो ेयस्य रम्भदेन्तरासख्याक्रद्विश्वस्मादिन्द्रवृत्तरः अजमिन्द्रविडाकविः परः स्वन्तम् हतम् वीदति असिंसोरान्नरुमादेधस्य नाचीतम् विश्वस्मादिन्द्रवृत्तरः अजमेमि विचाक सद्विचिन्वन्दा समार्यम् श्वस्मादिन्द्रवृत्तरः नन्व जयत्क्रन्दत्वम् जगदिष्वित्तावियोजना नेदीयशो वृडाकवेस्तमेभिः गृहाङ्गुपविश्वस्मादिन्द्रवृत्तरः पुनरेहि वृडागपेषु विदा कल्पयामहै एत स्वनम्स नोस्तमे पुनर्विश्व स्वादिन्द्रवुत्तरः यद् लुञ्जो वृडागपे गृहमिन्द्राज गन्दन क्वा अस्य पुल्मघो मृगः कमागम् जनयोप नो विश्वस्मादिन्द्रवुत्तरः परिशुर्हनाम भर्द्रम्भरत्यस्या भोज्यस्या उदरमामाजद्विश्व स्वादिन्द्रमुत्तरः रक्षोहनम् वाजिनमाजिघर्मित्रम् रथिष्टमुपाजामि धर्म शिशा नो अग्ने क्रतोभिः समिद्धः समोदिवासरिणः पातु रक्तम् अजोदांष्टो अजुषा जातजानानुपस्कृशजातवेदः समिद्धः आवजामूरादेवान् नभः स्वक्रव्यादो भित्तबीध्वासान् उपोगायाभिन्नपादेहितांष्ट्राहिन्दरस्य सारो वादम् परम् च उदान्तरिक्षेपरीयाहि राजम् जम्भैः सन्देह्यबियादुधानान् यज्ञेरिडोः सन्नमामानाग्ने वाचाशल्याम् असमेऽभिर्जिहानः ृद्यहृदये यादधानान् प्रति चो बाहोन् प्रतिभङ्गीराम् अग्ने त्वजम् यातधानस्य बिन्दिर्भरसाहन्त्रेण प्रपर्वाणि जातवेदश्रिनिः क्रव्याक्रविष्णुर्विचीर्णोत् वृक्रम् चत्रेदानीम् जातवेदस्तिष्ठम् तमग्नबुधवाचरम् तम् न्तरिक्षे पथिभिः पतन्तम् तमस्ता युभ्य सर्वाशिषानः उदालब्धांशृिः जातवेद आलेभानाकृष्टिभिर्जातुधानात् अग्ने पूर्वो निजहिशोऽशूतान आमाधाक्षिङ्गास्तमादन्त्वेन मह प्रव्रूहि यतमस्सो अग्नेयो जातु जिदम् कृणोति भस्वसमिधायविष्टविचक्षसश्चक्षूषे रन्ध्रयैनम् तीक्ष्णेनाग्ने चक्षूषारक्षयज्ञम् राम् वसुभ्यः प्रणायः प्रचेतः रक्षाम् सभिसोऽसूदानम् मात्वा रञ्जराना विजक्षः विचक्षारक्षः प्रदीपस्य भिक्षुरस्य त्रीणि प्रतिश्रुमीह्यग्रा स्याग्ने वृष्टे हरसाश्रणी रेधामूलम् जातुधानस्य वृष्ट त्रिर्यादुधा न प्रसीदन्तये त्रिदञ्जो अग्ने अपि ते न हन्ति तमर्तिषा स्फोर्जयम् जातवेदसमक्षमेणतेन वृन्धि तदग्ने दक्षप्रतिधेहि रेभे स फाटुजम् तेन पश्यसि सर्वमज्योतिषादीवेद सत्यम् धूर्वम् धि सञ्जोष यदग्ने अद्य मे चुनासपातो यद्वाचस्पृष्टम् जनयम् दरे भाः सत्सव्या आतेजातजा विध्यकृतजेजानान् पराश्रुणीः तपसा जादुधानान् परा अग्ने रक्षो हराशुणीः पराचिषामूरदेवाच्छ्रिणीः परा आशुपो अभिशोसूजानः यः पौरुषे येन क्रविडा समन्ते यो अश्वेण पशुमा यातुधानाः यो अज्ञा जाभरादिक्षीरमग्नेते निहरसा वीरुश्च सम्भरिणम्बजािया यास्तस्य मासी जातु धामो रुदक्षः मग्नेयदमसात्तम् प्रत्यम् च भक्तिषाः विद्यमर्मन् विषङ्गमाञ्जा दुधानापि मन्त्वामृच्छन्तामतीतये दुरेवाः परयीणाम् देवः सितादधातुपरा भागमोषाधीनाम् जयन्ताम् सनालग्ने मृदियादुधानाम् नत्वा रक्षाम् विवृतानासु जिज्ञुः मनूदः सहमूनान् कव्या सोमाते हेत्या मुक्षदैव्यायाः अर्गे अधरादुदत्ता त्वम् पश्चादुतरक्षा पुरस्तात् प्रतिदेते अजनाः सस्तपिष्ठा अघरम् संसोऽशोचतो पश्चात्पुरस्तादधराजदत्तात् कविः काव्ये न परीपाजिराजन् सखे सखाजमजलोज विम्नेऽग्ने मत्ताम् नमत्यस्त्वन्नाह परिपाघ्ने पुरम् भजम् विप्रं सहस्य धीमहि दृढद्वन्नम् दिवे दिवे रंतारं भुरावहताम् ङ्गरावधप्रतिष्व रक्षसोदः अग्ने दिग्मेणष्टिभिः प्रत्यग्नेजा दुधानाः गिरीरिनाः द्वादिशामिजागृह्यदब्धं विप्रमन्मभिः प्रत्यग्नेहरसाहरश्रुणीः विश्वदप्रति या तु धानस्य रक्षसो बलम् विरुजवीर्यम् अविष्पान्तभजनम् सर्वश्याहोदञुष्टामग्नौ तस्य धर्माणे भुवनाय देवाधर्माणेकम् स्वधयापप्रथन्त ये भुवनम् दमसापगूढमाविश्वानभवज्जाते अग्नौ देवा पृथिवी जौ हृदवजन्नोराधी सख्ये अस्य देवेऽभिर्विहृदो यज्ञयेऽभिरग्निम् स्तोजरम् बृहन्तम् यो भानुनाः पृथिवीम् जादे मामाः तता नरोदसि अन्तरिक्षम् यो होदासीत्प्रथमो देवजुष्टोऽयम् समान्यन्नाद्येनावृणानादरम् स्था जगद्यच्छ्वात्रमग्निराकृणोज्जातवेदा यज्जातवेदो भुवनस्य मूर्धन्न तिष्ठो अग्ने सवलोचनेन ेममतिभिर्यर्भिरुक्तैः स जग्ो अभवो रोदसिप्राः भुवो भावधिलक्तमग्निस्तदः सूर्यो जायते प्रातरुद्यन् मायामो नाभेदामपोजत्तो निश्चलिप्रजानन् दिशेऽन्यो यो माहिना समिद्धोरो चिवियो निर्विभावा तस्मिन् अग्नौ सूक्तभागेन देवाहविर्विश्वाजो भवस्तनोपा सूक्तभागम् प्रानमादिदग्निमादिध्यविराजनयन्तदेवा स येषाम् यज्ञो ह भवस्तनोपास्तम् चौर्वे धम् ऋचिवीतमापा तम् देवासोजनयन्ताग्निम् यस्मिन्नाजो हवर्भुवनानि सोऽषा पृथिवीञ्जामुदे मामृजूयमा नो अत पन्महि सोमे रहि दिवि देवासो अग्निमदीजनच्छक्तिभीरोदसि प्राण्वान्धा भुवेदम् सदोषधीः पतति विश्वरूपाः यदे रमदधुर्यज्ञियासो दिवि सो सूर्यपादिदेयम् यदा च दृष्णो मे धुनामभूतामादित्रापश्यन् भुवाना निश्वा इष्टस्माग्निम् भुवानाय देवा वै स्वानरम् केतुमह्नामकण्डन् आयस्तदा नो नसोऽपिभाति रमोः पूर्णोदितमो अर्चषायन् वै स्वानरम् कवयो नक्षत्रम् रत्रमीनश्च दृष्टुस्याध्यक्षम् दिषम् बृहन्तम् ऐ स्वागरम् विश्वहादिवान् सम्मन्त्रैरग्निम् कविमच्छादामः बभूपोर्वीदाे श्री अर्जुनमङ्गदेवामहम् देवानामुदमत्यानाम् भ्यामिदम् विश्वमे दत्समे दियतम् तरापितरम् मातरम् च द्वेतश्चरम् शीर्षयो जातम् मनसा विवृष्टम् सप्रत्यम् विश्वाभुवारायच्छन् तर निर्भ्राजमानः यत्रापदेहवरः परश्च यज्ञन्यो कतरो नो आसे कुलत्सधमादम् सखा यो रक्षम् दयज्ञम् क इदम् विवोचत् तत्यज्ञयः कतिसूर्याः सक्रत्युषा सक्वत्मिस्वितापाः नोपस्मिशम् वत्पितरो वदामि पृच्छामि वक्कयो विद्मनेकम् यावन्मात्रमृतो न प्रतीकम् सुपन्नो वोपसते मातरिश्वः धायज्ञमायन् रामणोः दुरबारो निशीलन् इन्द्रं स्तवामञ्जस्य मह्नाबीभे रोचना विद्मो अन्तान् आयः पप्रौचर्षडीधृद्वरोभिप्रसिन्धुभ्योतिर्विशालो बाहित्वा सो यः पर्युरोवरास्येन्द्रो ववृत्रा द्रच्छेव सक्रा अतिष्टन्तमपश्या अन्नसर्गम् कृष्णातम् सेत्विष्या जघान समानमस्मानपामृगक्ष्मया दिवो असमम् ब्रह्म नव्यम् यः पृष्ठे भजनीमान्य इन्द्रश्चिका जनसखाः जमीषे इन्द्राः जगिरो अनीषितसर्गा अपप्रेराजम् सकारस्य बुध्ना यो अक्षे नैव जग्रियाभिश्वस्तम्भरृथिवीमुद्याम् आपान्द्रमन्यत्र प्रभर् माधुनिःसिमी वाञ्छ माम् ग्लिः सोऽ विश्वान्यदसावनानि नर्वागिन्द्रम् प्रदिमानानि देभुः न यः सद्यावा वृथिनीनधन्वनान्तरिक्षम् नाद्रा यः सोमो अक्षाः यथस्य मन्युरधनीयमानश्रुणादि वेलुरुजति स्थिराणि जानवृत्रांसुधिणेजपुरो अनदन्नसिन्धो निभेद गिरीर्णाभैर्न कुम्भमागायिन्द्रो अगृणस्वयुग्भिः त्वम् हत्यद्रीणजायम् रथीरोधिर्न पर्व विनाशी नासि प्रजे मित्रस्य वरुढस्य जामयुजम् न जनाः विनन्ति भित्रम् प्रजेभित्रम् रार्जवनम् दुरेवा प्रसङ्गिरप्रवरुणम् वियन्ति ज्ञा अमित्रेषु पथमिन् रतुम् रम् मृषम् मृषा नमरुषम् सीसीः इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अवामिन्द्रयित्पर्वतानाम् इन्द्रो वृथामिन्द्रयन्मे धीराणामिन्द्रः क्षे मे योगे हव्य इन्द्राः प्रातभ्य इन्द्र प्रभृतो अभ्यत्रान्तरिक्षात्प्रथमुद्रस्य धासेः प्रवातस्य प्रथा स प्रज्ञो अन्ताङ्ग्रसिन्दुभ्यो जगिते प्रक्षिणिभ्यः जत्यागुणैव केतुरसिन्वाते भर्ततामिन्द्रघेतिः अस्मे विध्य जिवासे जानस्तपिष्ठे न हेष सा द्रोघमित्रान् अन्वहवासा अन्विन्द्र नान्यन्वोषधीरनुपर्वता सह अन्विन्द्रम् रोदासीवावसाने अन्वापो अजिहदराजामानम् करिः शित्साद इन्द्र चेत्याकृपो यच्छस नेन गावः पृथिव्या आभृगा भुयासयन्ते शत्रूयन्तो अभियेनस्तदस्रे म्राधम् तवो गणासा इन्द्र अन्धे नामित्रास्तमासा सजन्ताम् स ज्योतिषो गुरु निहत्वा जनानाम् ब्रह्मा निमन्दम् क्षणतामृषीणाम् इमाघोषन्नव सासहूतिम् तिरो विश्वाम् अर्चोजार्वान् देवाते दे वयमिम् प्रभुञ्जतीनाम् विद्याम सुमतीनाम् नमानाम् नाम। विद्यामवस्तो रवा सा गृहन्तोः विश्वामित्रा उत इन्द्र नूनम् सुनम्भो वेमघवा नमिन्द्रमस्मिन् भरे मृत मम् वाजा सातौ शृण्वन्तमुग्रमोदये समत्सघ्नन्तम् वृत्राणि सञ्जितम् धनाना सहस्र शीर्षा भूमिम् गुलं। हृत्वात्य तिष्ठद्दशाङ्कुलम् पुरोढयेवेदम् सर्वम् यद्भूतम् यच्छ भव्यम् पुरामृदत्तस्येशातिरोहति एतावानश्च परिवातोऽध्यायाम् श्वूरूढ पादोऽस्य विश्वा भूता नित्यपादस्यामृतम् दिवि त्रिपादो द्वौ दयेत्पुरोक्पादो सेय भवत्पुनः ततो विश्वम् य क्रामः साधनानशने अभि तस्मालजायत विराजो अधिपुरूढः स जातो अत्यारिच्यत पश्चाद्भो विमथोः पुरः यत्पुरुषेण हमिषा देवाधिज्ञमतम् वता वसन्दो अस्यासीदाज्ञम्भिः तम् यज्ञम् बल प्रोक्षम् पुरुषम् जातमग्रतः तेन देवाजन्तसाध्यारु तस्माह्यज्ञात् सर्वभूतः सम्भृतम् बृषदाज्यम् पशून्तांश्चक्रे वायव्याः नारण्याङ्ग्राम्याश्चये तस्माद्यज्ञात् सर्वभुजसामाः निजग् छन्दाहम् निजग्गिरे तस्माद्जस्तस्मादजायत तस्मादस्वाः अजायन्तरे केचो भयादः गिरे तस्मात् तस्माकल्पयन् मुखम् इमस्य कौ बाहो गावोरूपादाः उच्येते ब्राह्मणा समुखासीत् बाहूराः जन्यः कृतः ऊरोदरस्य यद्वैष पद्भ्या शूद्रो अजायत चन्द्रवामन अजाजता, सूर्योऽजायत मुघादिन्द्रश्चाग्निश्च प्राणाद्वायुराजायत नाभ्याः आसीरन्तरिक्षम् शीर्ष्णाद्यौ समावर्तर पभ्याम्भो निर्दिश्रोत्रात् तथा लोकाङ्गकल्पयन् प्तसमिधकृताः देवायज्ञम् बाणावण्रोढम् पशुम् यज्ञेन यज्ञमा यजन्तदेवास्तानि धर्माणि प्रथमान्या सन् हनाकम् महिमानः सन्धरत्र पूर्वे साध्याः सन्ति देवाः हमिषो वने विभुर्विभावाः सुते सदर्शीरजे जगृहे गृहे वने वने सुयेत क्वीरेव न्यो नाति मन्यते वि साक्षेऽति विश्वम् सुदक्षोरक्षैक्रतो नासिक्रतुरग्रे क्रविः काव्ये नासि विश्ववित् स्व सर्वसोनाम् क्षयसि त्वमेकयुज्या वा जनानि पृथिवी दृष्यसः ेतभजोनि मृत्विशमिलाः यास्मते घृतमन् समासादः आदे जिगित्रपुडसामिवेदयो नेपदसूर्यस्येव रश्मयाः तपस्वियो वर्णस्येव विद्युदश्चित्राश्चि गित्रपुडसान्न केतवाः योषधीरपितृश्रावणाः नियम् दे रुषे अन्न मास्ये ृत्यमावो अग्निम् जनयम् मानम् वनिनश्च विरुधो पर्वातीश्च सुभाते च विश्वः मातोपधूतलिषितोपसा मनो दृशिजतन्नामे वीषत् विदिष्टसे नेधाकारं ृथक् श्रद्धाम् मेधाकारम् विरधसप्रसाधनमग्निम्भोतारम्भरिभूताम् स्वामिनत्रारुणते त्वाय गो होलारमग्ने विदसेषु वेधसाः यद्देभयम् दोददादि प्रजांसिते हविष्वम् वृत्तवल् तपा जे गोत्रम् तव गोत्रमृद्विजम् तव नेष्ट्रम् त्वमग्निगृता यतः तव प्रशास्त्रम् त्वमध्वरीयसि ब्रह्मादासि गृहपतिष्ट नोदमे यस्तोभ्या मग्ने अमलः तस्य होतास्मै मतयोचो अस्मदाङ्ग्मतूर्य य सुवीयसीम् भूते रास्वासते शृणोतु निःस्पृशे दाने भवत्य सुवासाः यस्मिन्नस्वा सर्वासभुक्षणो भेराव दृष्टा साहूताः ीलालपे लोमालपेघे घृतामतिम् जातये चारुमग्नजे अभाव्यग्ने हविरास्ये सु घृतम् संवीव सोमाह वाचसनिम् रजमस्मे सुवीरम् रजस्तम् धेहि यशसम् बृहन्तम् लक्ष्म्यस्य भोरथ्यम् विस्मृतिम् विशाम् होतारमत्तो रतिथिम् विभावासु ष्टा शुभदीनेषु जद्भूरत्विषा चेतुर्यतोमुखये अगन्वत धर्माणामग्निम् विरधस्य साधनम् आत्मोन्नमुदतः पुरोहितम् तनोनपातमरुणश्चिंसते वणस्य नीथाभिपणेश्च मन्महे मया अस्य प्रभूताः सुरत्ता वे यदा घोरासोः अमृतत्वमासीयस्य टिप्पणीयसी इन्द्रोः मित्रो वरो न सन्ति गित्रेभितायन् द्विसिन्धावस्थिरो मही मनोन्द्रे परिज्ञा पर्यरुद्रयो विरो वध्यत रे विश्वामुक्षते प्राणारुद्रानुदो विश्वकृष्टयो दिवस्येनासो असूरस्य नीलयाः देभिश्चेवोजमेन्द्रो देवेभिरर्वसेभिरः इन्द्रे भुजम् दशमानाथ आसदूरो केव नश्च पुंस्ये र्गणाः तदक्षिरे युधम् भद्रम् त्रिषदानेषु कालवाः शूरस्थिता हरिवासरेण मलेन्द्रादा कश्चिद्भजते तवीयसः भीमस्य विष्णो जगराजविश्वन्नपाधितः सोमम् वा च रुद्राय ऋक्वादेक्षयधीराय नमासादिष्टन िवस्वयाभिः तेभ्यः प्रजायाभरन् सो हस्वृ सोमजामयः सर्वा प्रथमो विधाय देवा दक्षेत्रे वा पृथिवी भूरिरेतसानङ्गो यमो दीति ेवनोदारिर्भु मरुतो विष्णो रविहिरा कविलहि शृणोद बुद्ध्यो रवि मणि मादा विचरन् दादिभिम् रसम् विश्वदेष्टदे आत्मानम् वस्य माता नामभिरश्वर्विश्वाहाभिरतिम् जनुषा पूर्वा अङ्गिराग्रा अविलक्षुरद्भरम् एभिर्विरायाभवद्विलक्षणः पाद सुमे वा पृथिवीभूतमुद्वीणायी यद्वीनोदीसम् महत् एतम् सख्यास हेभिर्मः पादम् सूषणि यज्ञे यज्ञे समर्तो देवान् सावर्यविभाे रारज्जो देवानामा ऋषु रजो विश्वे यज्ञेषु यज्ञिकाः ते घा नो अमृतशमन्ना लमामित्रो वरुणः परिज्ञा ृद्रोणाम् सुतो मरुतः पूर्णो भगाः उत नो नेण धन्याः स चायसाध्ये शामहिर्बुद्धेष् बुद्ध्याः उतनोः देवा रश्विना सुरस्वतीरामाभिर्मिद्रामौ रामऋ राजेति उदनाः रुद्राजन्मश्विश्वे देवासौरथस्प निर्भराः ऋप्परिश्ववेदः ऋभर्वृभक्षा ऋर्वीधरोमरा देहलीजूजुवारस्य वार्या दुष्टरम्यस्य वा रामादियो अक्रयो देव सविधु मुघो नाम सहो नयिन्द्रो वन्ये धन्येनाम् दर्गणीनाम् चक्रम् रश्मिन्द्रयो वैशुद्या वा पृथिवीघातम् महदस्मे वीरे विश्वदर्ग विश्व वृक्षम् राजस्य दारजेः वृक्षम् राजोदुर्वणेः एतम् दम् दिन्द्रा स्वयष्वम् गो एकम् मे सोमम् ज्ञानसूर्ये श्रुतम् वा वृधन्त गृहान् सम्भरानम्ना स्वयम् दष्टे वा नचुलम् वावर्तरे राम राजा युक्तै राम् हिरण्यै हेमधीतानोम् श्यामृशे अष्टान्ता श्रीमेवाणे वेदे प्ररामे वो चमसूरे मधवत्सु ये युक्ताय पञ्चविश्राव्येणाम् अधीन् अत्र सप्ततिम् च सप्त च सज्जोतिरिषान्वसज्जोरिष्टवाच सज्जोरिष्टवायवः नयेव दन्तप्रभजम्बदावद्रावभ्यो वाचम्बदावदभ्यः यद्रजः पर्वश्रागवासवस्वम्भो शम्भरतेन्द्रायसोभिनाः एतेव दन्ति सतवः सहस्रावदभिक्रम् दन्तिहरितेभिरासभिः विष्णीद्रावारस्वकृतस्वकृत्य जाहो दश्चित्पूर्वे अभिरद्यामासता एतेवा सन्त्यविदन्ननामधन्योङ्यन्ते अधिपत्पामीः वृक्षस्य सा कामरुणस्य वत्स दस्ते सुभर्वाविषभाः प्रेम राविषु विगद्धमदिनेन मन्दिरेन्द्रम् क्रोधम् तो विदन्ननामसु संरभ्याधीरासुभिरनत्रितुराघोरजम् तत् पृथिवी बिभिः खरे ष्णाः युशिराः उग्राजीव प्रवहम् तः समायामः साकम् युक्ता मृढा नो बिभ्रादो जग्रदानाहराः विवशृाम् अर्वाता दसा वनेभ्योदसा कक्ष्येभ्योदस योक्त्रेभ्योदस योजनेभ्यः दसाभीषुभ्यो अर्चता जनेभ्योदसधुरोदस युक्तावहद्भ्यः ते अत्र ज्योदसा चन्द्राध आसमस्तेभ्यः माधानम् पर्येतिहर्षतम् बभूसुतस्य सौम्यस्यान्ध सोन्द्रोऽहम् प्रथमस्य भेजिरे हरीन्द्रस्य निंसते अध्यासते कवि एभिर्दृग्भ्रम्भविवान् सौम्यम् मध्विन्द्रो वधते प्रसरते मृषायते मृषाभो अंसुर्म किरा ला याधने लावन्तः समित्स्वशीलाः एव महासाचारावस्थलयश्च ग्रावाणो अजुरध्वमध्वरम् त्रिलिलाद्रिलिलासो अद्राजोता अमृत्यवः अनादुरा अजदास्ताम विष्णवस्तु बीवसो अदृषिता अदृष्णजः पितरोः युगे युगे क्षेम कामा सो नयुञ्जते अजुर्यासो हरिताचो हरिन्द्रभा पृथिवीमा दुश्रभुः ्राजो विमोचने रामस्पाजीभेतुभिः अपन्तोत्सः श्रुते अध्वरे अधिवाच वक्रराम् सुरङ्गाः इषु मन्दासु सुकृषो मनीराम् विवर्तन्तामद्राज्राजानाः ह्न अपि वाचमनाः ओ हरे हरे जादेव गोदेव जान्दिश्राके न वामहै नो मन्त्रा अनूदिता सेत्रे मयस्करन् परातरे जनान् षसामग्रेव पुरो नीवाहवस्मिन्न श्री सुधेर सना घोषास्रम्भीः अविरेट्रौविद विद्युत् नो राणमाजम् चेतजम् दधुना यः वसुदधजि स्वसूरायव चिवश्यन्ती गृहात् अस्त्रम् यस्त्रम् चाकन्तिता वै रसेनधयो वै रसेनो तस्वमे व्याणासि रवो नु चैतामाजम् राजा मे वीरन्वासि या सुेणि नवाभिर्हृेदक्षन्नग्रन्थिनी चरण्योः साणवन्ता समस्ति जायमान आसदग्नादेव नद्यासुता महे यत्त्वा पुरोनवो रवद्धयन्तय देवाः ेस्मत्सरसं तेन भोज्यस्ताहत्रोनाश्वाह यदा मतो वा अमृता सेत्साम् शोने भिक्तो भिन्न वृन्ते ता आतयो नश्वा सोनक्ेन यो ीर्घमायोः जगीन्वा विदुषे तस्मिन्न च करमाश्रु भूयोग्रस्वूरीरवाणि भर्तयदे अश्रु चक्रम् न क्रन्दराध्ये शिवाजी रते हि न भारते अस्मे परे किस्तम् न हि मो रामाः द्य प्रभदेतम् परमाम् मृताः सो अद्यो पुरो रवो माम् प्रपत्तो मात्वा न वै श्रयिणानि सख्यानि सन्ति कालाभृतानाम् कृता द्विरूपाचेष्व संरस्रः गृहस्य स्तोलम् रघ्राम् तव देवे दन्ता कृपामि अन्तरिक्ष प्राम् राजोऽभिमानीमुपादिक्षाम् युर्वधिम् वसिष्ठः उपत्त्वा राजस्तु घृतस्य निष्ठान्निबत्व स्वप्यते मे जिहित्वा देवा इमाहुरैरजे मे तद्भवति मृत्युबन्धो जाते देवामिरायजाति स्वर्गभुत्वमपि मा दजासे गुणे विदधेयोस्तात्माभि हरिवत्पसंराह हरिम्भियो नेमभिजे नमस्सारम् भिन्वन्तो हरि दिव्यम् यथा सदाः आयम् भृणन्ति गरिभिन्नदेन भजिन्द्रायदूरम् हरिमन्त्र सोऽवज्रो हरितो सो हर मोहरि राघभश्चोह युम्नेषु सिप्रोहरिमान्य खजिन्द्रे निरूपा हरितामिक्षिरे अभवद्धरिं हस्रशोका अभवद्धरिम्भरः सन्तामहर्यथा उपस्तुतः पूर्वेभिरिन्द्रहरिके सज्ज्वभिः त्वम् हर्यसि तव विश्वमुक्त्या अमरा अभिराधो हरिषादहर्यम् ृणम् अन्विं सोम्यम् मदीन्द्रम् रथे वहरो हर हर्य हरि पुरोण्यस्मै सम ना निर्य दहीन्द्राजसो माहराजो दधन्विरे अहं रामजहराजो दधन्विरे श्रीराज हिन्दरजो हरि तुला अर्वद्भिर्जो हरे भिर्जो रमीज तेतो अस्र रामम् हरिष्मदानुर्हरिजतस्तू रश्मेहरि वा अमद्ध अर्मद्भिर्जोहरिभिर्वादिनी एव सुनदि विश्वादुरिताः श्रुवे भजस्रहरिजहरि वीरविध्वनः प्रणतु मदयमर्मृगद्धरी भीत्वा मदस्य हर्यतस्यान्धरतः उदत्वदत्व हर्यरस्य पश्यो होरजो नीवा चिक्रद महे ऋण रोदसा बृहद्बलोदधिरे हर्यद्रिया आरोदध हर्यमाणो महि त्वा हर्यम् हर्यम् हर्यसि मन्मनोप्रियम् हर्यरङ्गो राष्कृधिहरजे सूर्याय आत्वा हर्यन्तम् प्रयुदोदना राम् प्रसे रे वहन्तु हरिषि प्रविन्द्रिपाचथा प्रतिभृतस्य मध्वो हर्यन् यज्ञसोनिम् पूर्वे राम्य हरिवत्सुता रामसो जिलम् धानैव मम मधुमन्दमिन्द्र हता रे रन्धारेणस्वा